हरि ओम् राम श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे सरगे प्रातः प्रबुधानां पौराणां विलापो निराशानां च नगरे निवर्तनम् प्रभातायाम् तु शर्वर्यां पौरास्ते राघव शोकोपत निश्चेष्टाय बभूवृहत चेतसे शोकजाश्रु परिध्यूना विच्यमाणा ततस्ततः आलोकमपि रामस्य न पश्यन्ति ते विशादात् वदन रैतास्ते न धीमतः कृपण करुणा वाचो वदन्ति स्म मरीक्षिणः धिगस्तु खलु निद्रां तां ययापहत चेततः नाद्य पश्यामहे रामम् क्वरस्कम् महभुजम् कथं रामो मह बाहू स तथा विचक्रिय प्रवासं तापसु गतः यो पालयति पितापुत्र पुत्र निभोरसन् कथं रघूणां सेत् त्यक्त्वा नो इहैव निधनम् यम महाप्रस्थानमेव रामेण रहिता नाम्नो किमर्थम् जीवितम् हितम् सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च तैप्रज्वाल्यचिताम् सर्वे प्रविशामोऽथवा वयम् किं वक्ष्यामो प्रियं वद नीतस्त राघवोऽस्माभिः इति वक्तुं कथं क्षमम् स नूनं नगरी दीना दृष्ट्वा अस्मान् राघवं विना भविष्यति निरानन्द स्री बालव योधिक निर्याता सेन वीरेण सह नित्यम् हस्मनः वीणा कथं द्रक्षा मताम् इति वहुधा वाचो बाहुमुद्यम्यते जनाः विलपन्ति स्म दुःखार्था ऋतवत्स इव गृह ततो मार्गानुसारेण गत्वा किञ्चित् तत्क्षणम् मार्गनाशाविषादेन महता समभिप्लुतः रथ मार्गानुसारेण निवर्तन्त मनस्विनः किमिदम् किं करिष्यामो देवेनोपहता इति तदा यथा गतेनैव मार्गेण क्लांत चेततः अयोध्याम् अगमन् सर्वे पुरीम् व्यथितसज्जनान् आलोक्य नगरीं तां च क्षयव्याकुलमानसः आवर्तयन्त ते श्रोणि नयनये शोकपीडितै एषा रामेण नगरी रैता नातिशोभते आपगरुडेनैव हृदुद्रुतपन्नगाय चन्द्रहीनम् इवाकाशम् तोयहीनम् इव अर्णवम् अपश्यन् यतानन्दम् नगरं ते विचेतसे प्रेतानि भ्रीष्मानि महाधनानि दुःखेन दुःखोपहृता विशन्थ नैव प्रजग्ो स्वजनं परम् व निरीक्षमाण प्रवीण च हर्षाय इत्यार्षे श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंश सर्ग श्रीसीता रामचन्द्रार्पणमस्तु